संहितापाठं मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनं मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्नीप्रमुक्तमेनम् मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्नीप्रमुक्तमेनम्